हरि ओं श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे सप्त पञ्चाशर्गः रावणाज्ञया प्रहस्तस्य विपुलसैन्येन युद्धाय प्रस्थानम् आकम्पं श्रुत्वा क्रुद्धो वै राक्षसेश्वर किञ्चित् दीनमुखाश्चापि सचिवान् तानुदैक्षत् तत् ध्यात्वा मुहूर्तं तु मन्त्रैभिः संविचर्य ततः तु रावणपूर्वे दिवसे राक्षसाधिपये पुरीं परि ययो लाम् सर्वान् गुल्मान् गुप्तां। तां राक्षस गणेशगुप्तान् गुल्मयी बहुभि आवृताम् वृद्धा वृद्धात्तु नगरीं धृष्ट्वा रावणो राक्षसेश्वर हे उवाचात्मा हितं काले प्रहस्तम् युद्धकोविदम् परस्योपन्विष्टस्य स्वसा हे नान्ययुद्धात् प्रपश्यामि मोक्षम् युद्ध विचारदे अहं वा कुम्भकर्णो वा ं वासे नापतिर्मम इन्द्रजित्वा निकुम्भो वा भवेयुर्भारमीदृशम् त्वम् सत्वम्बलमतश्चीघरम् आदाय परिगृह्य च विजयाभिनिर्यायि यत्र सर्वे वनोकसहे निर्याणादेव तूर्णं च चलिता हर वाहिनी नर्दताम् राक्षसेन्द्राणाम् श्रुत्वा नादम् द्रविष्यति चपरा हि अविनीता चलच्चित्ता च वानराः न ना सहिष्यन्ति ते नादम् सिंहनादम्बिवद्विपहे विद्रुते च वरे तस्मिन् रामस्व मित्रिणा अवशस्ते निरालम्ब समेष्यति आपत्संशयिताश्रेयो नात्र निसंशयीकृत प्रतिरोमानुलोमं वा यत्तु नो मन्यसे हितम् रावणे नैव मुक्तस्तु प्रहस्तवो वाहिनी पतिः राक्षसेन्द्रं वाचेदम् असुरेन्द्रं निवोचनाय राजन्मन्त्री न कुशलैः स मन्त्रिभिः विवादैश्चापि निवृत्त समवेक्ष्य परस्परम् प्रदानेन तु सीताय श्रेयो व्यवसितं मया अप्रदाने पुनर्युद्धम् दृष्टम् देव तथैव नः स्वनाय च मानय च सततं पूजय त्वया सान्त्व विविधै काले किं न कुर्याम् हितम् तवे न हि मे जीवितम् रक्ष्यम् पुत्रदारे धनाञ्चिद्धनानि च सम्पश्य माम् जुषन्तम् तदर्थे जीवितम् युधि एवमुक्ता तु भर्तारम् रावणम् वाहिनी पतिः वाचेदम्बलाध्यक्षान् प्रहस्ते पुरतस्थितायन् समानय सह मे शीघ्रम् राक्षसानाम् महाबलम् मद्बाणानाम् तु वेगेन हतानाम् च रणजिरे अद्य तृप्यन्तमासादा पक्षिणैकनौकसारम् तस्य सद्वचनम् श्रुत्वा बलाध्यक्ष महाबलः बलम् उद्योजयामासु तस्मिन् राक्षस मन्दिरे सा बभूव मुहूर्तेन भीमये नानाविधायुधै लङ्काराक्षस वीरतै गजैव महसमाकुलाय उताशनं तर्पयताम् ब्राह्मणा च नमस्त्यताम् आज्य गन्धे प्रतिवहे सुरभि मारुतो वभो स्रजश्च विविधाकारा जगरुस्वाभिमन्त्रिताय सङ्ग्राम सज्जा धारयन राक्षस सद स धनुष कवचिनो वेगा दप्लुत राक्षसा रावणं प्रेक्ष प्रहस्तं पर्यवयन अथा मंत्रे तो राजान भेरिम भैरवां, आरुरोह संयुक्त बृहस्ता सज्ज कल हये महाज वै युक्तम् सम्यक् सूतं सुसंयुतम् महाजल निर्घोषम् साक्षात् चन्द्रार्कभास्वरम् उग ध्वज दुर्धर्षम् सुवरूथं स्वपस्करम् सुवर्णजालसंयुक्तम् प्रहसन्तम् इव श्रिया ततस्त रथमास्थाय रावणार्पितशासुनः निरयो निर्योतूर्णम् बलेन महतावृतः ततो दुन्दुभि निर्घोष पर्जन्यानिनदोपमः वादित्राणाम् च निनदः पूरयन्निव मेदिनीम् शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनी पतौ निनान् निनदन्त सरान् घोषान् राक्षसा जग्मोग्रतः भीमरूपा महाकाया पुरस्तरा पुरस्तरः नरान्तकुम्भनु महानाद समुन्नतः पृहस्तः सचिवायते निर्ययौ परिवार्य तम् व्यूढेनैव शुभोरेण पूर्वद्वारा स गजयूथ निकासेन बलेन महतावृतः सागर प्रतिमोघेन वृतस्तेन बलेन सह बृहस्थो निर्ययो क्रुद्ध कालान्तकयमोपमाः तस्य निर्याण घोषेण रक्षसानाञ्च नर्दताम् लङ्कायां सर्वभूतानि विने दुर्विकृतेश्वरे व्यभ्रमाकाशमाविश्य मासचोणित भोजनः मण्डलान्यपवस्यानि खगाचक्रोरथम्प्रति वमन्त्य पावकज्वालाय शिवा घोराव वा शिरे अन्तरिक्षात् पपातोर्क वायु न ची मेघा चर निर्घोष रथ पीरक्षसू रुधि चास्चिच परेतु मूर्धन गुधसू विलीनो दक्षिणा मुखा नुभ यत पाशं सम्रियम हार्थे बहुशा संग्रामग प्रतोदो न्यपत धस्ता सुतसा दिन निर्याणश्री चया चाहस्वर सह दुर्लभय शुर्तन सखलिताह तम हि निर्यात प्रख्यात गुणपौर युधीना प्रण कपि सेनाभ्यवर्तते अथ घोषे सूतमुलौ हरिणां समदायत वृक्षानारुजताञ्च गुर्वीर्वै गृह्णताम् शिराय नदताम् राक्षसानाम् च वानराणाम् च गर्जताम् उभे प्रमोदिते सैन्ये रक्षो गर्णव नोकसाम् वेगितानां समर्थानाम् अन्योन्यवधिकाङ्क्षिणां परस्परं चावयुयताम् निनादे श्रूयते माम् ततः प्रहस्ते कपिराजवाहिनीम् अभिप्रतस्थे विजयाय दुर्मती विवृद्ध वेगां च विवेशतां च मम् यथा मूर्षु शलभो विभाविभावसु इत्याश्री श्रीमदरामायणे वाल्मीकी अधिकारी युद्धकाण्डे सप्तपञ्चाश सर्गः श्रीसीतारामचन्द्रर्मणमस्तु